मूले टस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेष मुकुलीकृतपाणिपद्मम् मन्दस्मितं मधुरवेषमुदारवाद्यं तेजस्तदस्तु हृदि मे तरुहेन्दुचूडम् शान्तं शारद चन्द्रकान्ति धवलम् चन्द्राभिरामाननम् चन्द्र कोपमकान्ति कुण्डलधरं च चन्द्रावतां शुकम् वीणां पुस्तकम् हक्षसूत्रवलयं व्याख्यातमुद्राङ्करैः भ्राणम् कलये कृदा मम सदा शास्त्रामिष्टार्थदम् कर्पूरकान्तम् अरविन्ददलायताक्षम् कर्पूरशीतलकृदम् करुणाभिलासं चन्द्रार्धशेखरम् आनन्दगुणाभिरा ्य पदपङ्कजमीरे द्युद्रोः अथ स्वर्णमया सनस्थितम् मुद्रोल्लसत्कायम् उदारकायम् स्वद्रोणीनाथ कलावतं सम् द्यग्भास्करसन्निभम् त्रिनयनं श्वेताङ्गरागप्रभम् बालम्बौ जिधरम् प्रसन्नवदनं। न्यग्रोधमूले स्थितम् पिङ्गाक्षम् मृगशापगस्थितिकरम् सुब्रह्मसूत्राकृतिम् भक्तानाम् अभयप्रदम् भयकरम् दक्षिणामूर्तिकम् श्रीकान्तद्रुहिणो भवल् त्वपनस्कल् देन्द्रनन्द्यादयः प्राचीना गुरवोऽपि यस्य करुणाले जातिगता गौरवम् तं सर्वादिगुरुम् मनोज्ञवपुषम् मन्दस्मितालङ्कृतम् चिन्मुद्राकृति मुग्धपाडिनलिनम् चित्ते शिवं कुर्मखे कबर्दिनौ चन्द्रकलावतं सं त्रिनेत्रम् इन्तुं प्रतिभक्षताज्वलम् चतुर्भुजम् क्षसूत्रपुस्तकगृहस्थम् हृदि भावये शिवम् वामोरुपरि संस्थिताम् गिरिसुताम् अन्योन्यमालिङ्गितया श्यामा पुप्पलधारिणी लोकयन्तं शिवम् आश्रिष्टेन करेण पुस्तकमतो कुम्भं सुधा पूरितम् मुद्राज्ञानमयी ददानम् अपरैः मुद्राक्षमालां भजे बटतरुनिकटनिवासम् पटुतरविज्ञान मुद्रितकराज्यम् कञ्चददेशिकावाद्यं कैवल्याल कन्दलं वल्दे